मुद्गलपुराणं खण्डं सवन् विघ्नराजचरितम् अध्यायं टु शिवपार्वतीसमागमं श्रीगणेशाय नमः दिदिरुवाच स्वामिन्पुत्रौ मृतावादौ पुनस्त्वद्वरदानदः पुत्रो जादो महेन्द्रस्य मित्रं नानास्वरूपधृक दैत्या दुःखयुधानाथ तदर्थं किं करोम्यहं निष्फलो मे समारम्भो भवति स्म निरन्तरं मूर्धनि त्वयि मेनाथ समर्थे दुःखमीदृश्यम् मया प्राप्तं विशेषेण किं करोमि वदस्वमाम् मां पुत्रपौत्रादिसंयुक्तः संसारः परिकीर्तितः स एव त्वयि संस्थे मे निष्फलः प्रबभूवः मुद्गल उवाच तस्यास्तद्वचनं श्रुत्वा किन्नायास्तां प्रजापतिः जगादस्मयमानः स योगेन्द्रः परमार्थविद कश्यप उवाच मा खेदं कर्मणां गदिरीदृशी संसारो दुःखमोहादियुक्तशास्त्रे निगद्यते दैत्याः पापसमाचाराद्देवाः पुण्यतमा मदाः पापि नाम्ना सुखं देवि शाश्वतं वेदवादः कथितं वेदवादेषु वचनं सत्यमेवतद भविष्यदिन संदेहो मम तां तत्र मा कुरु पुत्रा जादा प्रिये ते ये तेषां पुत्रा दयस्मृताः परम्परा जादा भविष्यदि निरन्तरं न वंशच्छेदिता ते तु भविष्यति कदाचन दैत्या मृत्युयुधाः प्रोक्ता किमर्थं शराम्य सेवृधा कश्य पश्य वच श्रुत्वा दिदिष्टं पुनरब्रवीद शोकसन्तप्तगात्रा सापदिं तेजस्विनां वरं दिदिरुवाच सृष्टिकर्ता स्वयं साक्षात्त्वं समर्थो न संशयः अकर्ते कर्तुमीश्यश्चान्यथा कर्तुमभिप्रभो मा मम दां सर्वभावेषु त्यक्त्वा त्वं योगिसत्तमसंस्थितोऽसि यथा वेदवादं ज्ञात्वा महामदे अहं मोहसमायुक्ता सदा तावत्रयान्विता दहामि मम तात्यागमार्गं मे ब्रूहिमानद येन शान्तिं दाहवर्जिता तत्सुखेनैव भवतु भावि यत्तादृशीं कुरु तस्यास्तद्वचनं श्रुत्वा कश्यपो दययायुधः शान्तिमार्गार्थमेवं तां जगाद हर्षसंयुधः कश्यप उवाच अत्रहं वदिष्यामीतिहासं च पुरातनम् तं ज्ञात्वा शान्तियुक्ता त्वं भजिष्यसि गजाननम् हिमाचलसुता जादा पार्वतीभगिनी च ते परात्परा हिमाचलं समाश्रित्य शिवोध्यानपरायणः तताप तप उग्रं स गणेशं चिन्त्य सर्वदा अत्रागत्य mm. महेशानं पार्वतीसेवनोत्सुका पतिं ज्ञात्वा विशेषेण सिषेवे यत्नसंयुता mm. महादेवो विदित्वा ता मनसि प्रोथमादधे मामुल्लङ्घ्य गदा दक्षाध्वरे चेयं विशेषतः स्वात्मा हीनानयोग्या वै पत्नी वेदे प्रकीर्तितम् अधः पत्नी विहीनः सन् सदा एवं मनसि सन्दार्य न मेने महेश्वरः समागतां तया भाषणं न चकारः ततोदिखेदसंयुक्ता पार्वतीतं महेश्वरं सिषेवे भक्तिसंयुक्ता नियमस्ता सुरूपिणी हावभावसमायुक्तां नित्यं सेवा सेवापरायणां जगाम पर्वताद्विक्ष्या पतिभावकरीं शिवः गतं सदा शिवं वीक्ष्य पार्वती शोकसंयुधा देहत्यागे समारब्धा सस्मारद्विरदाननं तस्य स्मरणमात्रेण स्फूर्तिर्जादा पराहृदि विचारमकरो चित्ते शिवा दुःखसमन्विता माम् त्यक्त्वा शङ्करो देवो गदो मानसमन्वितः न वृणोति कदाचित्स निश्चितं शङ्करेण तद् वेदे सङ्कथितं वाक्यं तपसा दुर्लभं कदा किञ्चिद्भवेन्न तं देवं तपः राधयाम्यहं एवं निश्चित्य सा देवी तताप तप उत्तमं ध्यात्वा सदा शिवं नित्यं वनस्था सखि संयुता पञ्चाक्षरविधानेन तोषयामास शङ्करम् लिङ्गपूजा परा नाना तपःपरायणा एवं बहौ गदे सदाशिवः क्रोधयुक्तस्वभावेन न तां मेने कदाचन त्वषयामास तं ध्यात्वा नित्यं पूजापरायणा त्यक्त्वा सदा शिवं देवी भजने रदा ततः स्वल्पेन कालेन शिवबुद्धिश्चचालः श्रावणे शुक्लपक्षे सा चतुर्भ्यां मृन्मयं परं कृत्वा गणेश्वरं नित्यं पूजयामास भक्प्रिदः वायुमात्राशना देवीतां मूर्तिम्भावसंयुता पूज्य ध्यानपरा भूत्वा जचाप मन्त्रमुत्तमम् पुरश्चरणमार्गेण मन्त्रं जजापनित्यदा ततस्थां शङ्करो देवो मनसा सङ्गतोऽभवद शिवश्चिन्तां चकारैवं देवी तपसि संस्थिता अधुना गमिष्यामि मदर्थं नियमान्विताम् देहभृतपराधैश्च संयुक्तो जायते कदा अधः क्षमापनं कृत्वा वरिष्यामिन न संशयः एवं विचार्य देवेशस्तां ययौ पार्वतीपतिः दृष्ट्वा श्रमयुतां देवीं विस्मितो मोहितो भवद ब्रह्मचारिस्वरूपेण निन्दयामास शङ्करं सा तं क्रोधयुधाभर्ष्य निर्ययौ वनगाचरद तदोतितोषसंयुक्तशङ्करो रूपमादधे स्वकीयं तद्विलोक्यैव ननाम जगदम्बिका तुष्टावतं महादेवं ततः वरदो भवद जगाद मोहसंयुक्तः पार्वतीमीश्वरेश्वरः शिव उवाच वरं वृणुमहाभागे विचितस्त्वया सा विजितस्त्वया दास्यामि नात्र सन्देहस्त्वदधीनोहमादराद स्वदात्मवशगो भूत्वा स्थास्यामि नित्यमञ्चसा भार्या मे भवकल्याणि पदिस्तेऽहं यदि प्रसन्नभावेन वरं दास्यासि शङ्कर तदा मेपि दरं या च पदिव्रतात्मकं धर्मं देहि मे विघ्नहीनकं तेन तुष्टा महादेव नित्यं परायणा शिव उवाच त्वयोक्तं सफलं सर्वं भविष्यदिन पितरं याजयित्वा ते वरश्यामि वरिष्यामि निश्चितम् अहो तपो ह्यहो धैर्यमतस्ते देहजोमलः सर्वपूज्यो महादेवी भविष्यदिनसंशयः कश्यप उवाच तस्मिन् दिने तृतीया दुभाद्री शुक्ला बभूवः शिवेन संयुता देवी गणेशानं पुपूजः ततश्चतुर्थिकायां सा होमं चकार हर्षिता पञ्चम्यां ब्राह्मणैः सार्धं पारणं जगदम्बिका महोत्सवयुता देवी मूर्तिं तां गृह्यहर्षिता जले चिक्षेप प्रार्थयामास यत्नदः तदशिवो जगामैव स्वस्थानं हर्षसंयुधः गत्वा प्रणम्यपितरं पार्वती संस्थिदाभवद ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे सप्तमे खंडे विघ्नराजचरि शिवप्गम द्वियध्याय ओ